प्रथमाष्टके अष्टमप्रश्नप्रारम्भः वररुणस्य शिशुभाणस्य दशथेन्द्रियम् वीर्यम् परापत तात्सगुंसुभिंसुपागुंसगंसर्पम् अग्निना देवेन प्रथमे हन्न न, न प्रायुङ्ग सरस्वत्या वाचा द्वितीये सवित्राप्रसवेण तृतीये बृहस्पतिना ब्रह्मणा पञ्चमे इन्द्रेण देवेन षष्ठेश्वमे अष्टारूपेण नवमे विष्णुना यज्ञेनाप्ना यत्सगुंसृगो भवन्ति इन्द्रियमेव तद्वीर्यम् यजमान आप्नोति पूर्वा इन्द्रियस्य वीर्यस्यावरुद्धिस्तादुपसदागो सौम्येन प्रचलति सोमो वैरे क्रोधाः एत एव तद्दधाति एव इदम् द्रष्टा रूपाणि विकरोति उपनिष्ठाद् वैष्णवेन विष्णुः यज्ञ एवान्तप्रतिष्ठति यामि वा एतत्कुर्वन्ति यत् सत्या दीक्षयन्ति सद्यः सामम् क्रीणन्ति पुण्डर सृजाम् प्रवेच्छामिवर्गम् लोकयन्तः अप्सरीक्षा तपसि प्रावेशयन् तत्पुण्डरेकमण्डरसृजाम् प्रवेच्छति साक्षादेव दीक्षा तपसि अवन्देत्सधरे सामम् क्रीणादि दशाक्षराविराट् अन्नम्नाद्यमवृन्देश्वरा भवन्ति तेन्द्रनाद्य शायुपुरुषेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति सप्तदशस्तोत्रम् भवति सप्तदश प्रजापति प्रजापतेराब्दी आकाशावद्धर्यवे ददाति प्रकाशमेवैनङ्गमयति स्रजनमुत्रे देवास्मैवासयति कृत्मगोहात्रे वास आदित्यमेवास्मान्मयदि अश्वम् प्रस्तोदृप्रतिहर्तृभ्याम् आजापत्यो वा प्रजापतैराद्यो हेर्ब्रह्मणे आयुरेव वृन्धे दशाम्मय्येत्रावरणाय काष्ठमेव वश्यग शुभम् ब्राह्मणाच्यगोसिने राष्ट्रमेवेन्द्रियाव्यका आदीनेष्टा भोदृभ्याम् अविद्रेवासीते वाकाय अन्तत एव मरुणमवेजतेहमग्नी वह्निर्वार्वा वह्निर्ग्नेरैव इन्द्रस्य सुषाणस्य धेदेन्द्रियम् ृतीयम भवयन्देयम् सारस्वतीयम् सायन्दीयम् ब्रह्म सामम् पार्वन्दीयमग्निष्ठामसामम् सारस्वतीरबो बृह्मादि वीर्यस्यावरुद्धि सायन्देयम् ब्रह्मसामम् भवति इन्द्रियमेवास्मिन् वीर्यग्नश्रयति पार्वन्दीयमग्निष्ठामसामम् इन्द्रियमेवास्मिन् वीर्यम् वारयति ईश्वरो वा एष दिशो नोन्मदितोमवेष्ट भवन्ति इक्ष्वेव प्रतितिष्ठत्यनम् मादाय पञ्चदेवता यजति दि, पञ्चदिशः इक्ष्वेव प्रतिष्ठति हविषा हविष इष्ट्वा रहस्पत्यमभिकारयति यजमानदेवत्या वै बृहस्पतिः यजमानमेवते च सा समर्थयति स्मै राष्ट्रम् च समीचीदधाति आदित्यया पूर्वया प्रचरति एव विशमनपत्नादि उच्चैरादित्या आश्रावयति वाग् वदति गर्भिण्यादित्या भवति इन्द्रियम् वै गर्भः राष्ट्रमेवेन्द्रियाव्यकः अगर्भामावृतीतः विषमेवन्द्रियामकः देवासायत्ता ते देवाश्विनोषणवादसत्यधाय अनृतेनासुरानभ्यमवन् तेष्विभ्याम् गोष्णे पुरोडाछन्द्वादशकपालन् निरवपन् ततो वैते वादः सत्यमवारन्धताविभ्याम् गोष्णे पुरोडाछन्द्वादशकपालन् निर्ववती ृते नैव भ्रातुर्व्यानविभूय पादसत्यमवलन्धे सरस्वते सत्यवाजे धनुर्वमेणाभिगुणाति सवित्रे सत्यप्रसवाय पुरोडा छन्दादशकपालम् प्रविणोति आविद एता भवन्ति आविदमेवैलम् गमयन्ति अथो दूतेभ्य एव न चित्यते समृद्धि आज्ञेयमुष्टाकपालम् तस्माच्छिरे कुर्वन् जालाप्राञ्चो यान्ति सौम्यम् जरम् तस्मात्मसन्तम् व्यवसायादयन्ति सामित्रम् द्वादशकपालम् तस्मात्मरस्ताद्यवानागमसमित्रा विरुन्धते आहस्पत्यम् जरम् समित्रैव विरुध्य ब्रह्मणाय वानादते राष्ट्रमष्टाकपालम् रूपाण्येव तेन कुर्वते वैश्वानिरम् द्वादशकपालम् ैदाघे प्रत्यञ्चला सारस्वृो वदन्ति वारुणेन विदृता से चैत्रपत्नेन वाचयन्ते आदित्येन हवीं निरूप्याणि इत्याहो तेनैव त्वायङ्ख इति ततो खल्वाहो कसंवत्सरम् जीविष्यतीति षडेव पूर्वे षडोत्तरेत्तरेषाम् उत्तर उत्तर संवत्सरस्यैवान्दो युनक्ति स्वर्गस्य लोकस्य समष्टि इन्द्रस्य शुशुभाणस्य दशथेन्द्रियम् वीर्यम् बलापदत सेत्वसमञ्जरश्चीवद तत्कलमभवत् यद्विजीयम् तद्वदरम् यत् तृतीयम् तत् कर्कन्दो यन्मस्तः सिगुंहोलः यत्कर्णयोः स मृगः यवोर्धः सासुराः त्रिया सक्तवो भवन्ति इन्द्रियस्यावृद्धि त्रयाणि लोमानि कृषिमेवावृन्दे नाम्ना लक्ष्मी न वै पुरुष प्राणाः नाविलक्ष्मि प्राणायम् वीर्यम् प्राणानेवेन्द्रियम् वीर्यम् यजमान आत्मम् दत्ते शेषेण क्लेवाच्छश्वानक्लेणादि न वा एतदयनैरण्यम् यत्शेषम् नत्रेणपमानो यत्क्लेव नसौत्रान्वाः स्वादिनेत्याः ृष्टावसरे रात्रे देवनादिव्यावृत्त्यै पवित्रेण पवित्रेण हि सर्वम् फलन्ति आरेण शश्वधातनेत्याः हि सामम् वनन्ति मालिवतः पवित्रेण विरुद्धा अधिपवितस्यैतया बुनीयात् अभिरङ्गेत्य प्राजापत्यया गृह्णाति अभिरक्तः प्रजापतिः प्रजापतेराब्धी एकैत्या गृह्णाति एकदैवीर्यम् ददाति एक अश्विनम् सोम्रमालभते अश्विनौ वै देवानाम् विषयोः स्मै भेषजम् करोति सारस्वतम् भेषम् वाग्लभेतस्मादिन्द्रियम् वीर्यम् दद्यात् भादुर्यमस्मै जनयेत् एकयोप आलभते एकथैवास्मिन् वीर्यम् ददाति तास्मै भ्रादुर्यम् जनयति नैतेषाम् पशूनाम् पुरोडाशा भवन्ति प्रह पुरोडा युवनोश्विने सर्वदेवक्ये भवतः सर्वा, दे सर्वा एव देवता प्रीणाति ब्राह्मणम् परिक्रीणीयादुच्छेदनस्य वातारम् ब्राह्मणोच्छेदनस्य वाता यदि ब्राह्मणम् न विन्देत्पायामनयेत् प्रायश्चित्ते यद्वै सोऽत्राम् तदस्यै समर्थम्पशो नाम ऐन्द्रः पुरोडाशानाम् प्रथमः समीची पुरस्तादनु याजानाम् प्रोडाशे प्रचरति पशो वै पुशो देवावृन्धे दे। स्यालभते ब्रह्म वै देवानाम् बृहस्पति ब्रह्मणैवज्ञस्य व्यर्थमेवनेषु पशुप्ति ृह्णन्ति साणः शतेन्द्रियः प्रतितिष्ठति दक्षिणे यत्नो जहोतिवृत्तिः हिरण्यमन्तराधारयति भूतामेवेनाम् जहोति शतमानम् भवति सदा युक्पुरुषश्चतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति यत्रैव सदा दुर्णाम् धारयति इत्यस्येन्द्रियाणि ब्रह्मा तोपतिष्ठन्ते दान्ये ज्ञस्यैरेन्द्रियाणि ऐरेवास्मै भेषामग्राहरति यज्ञमुखम् वा अग्निष्ठमेवार्भ्य सममाक्रमतेनो भवति त्रे श्रींशद्वै देवताः आ एवाप्नोति प्रजापुरश्चिरश्रिगुंशः तमेवाप्नोति सोम नाम यथा पूर्वम् यद्विषमा स्तोमाः एतावानुवै यज्ञः या वानाः मन्त्रश्लेषणम् वा अन्यत्समाप्पवमानाः ते तेनासरः तेन यथा पूर्वम् आत्मनैवाग्निष्टो मे लब्नोति आत्मना पुण्या भवति प्रजा वा उक्थानि अशव उक्थानि यदुक्षो भवत्यनुसन्दत्यै उपत्वा जामयोगिर इति प्रतिबद्धवति आत्मैवायो आ च सर्वासामेव प्रजानागोयते सर्वादी प्रजा राजेति वदन्ति एतमत्यन्तशिक्षपैत्याः आदित्या मे प्रजानामेवेतेनम् भार्याक्रन्नयन्ति अनुष्टप्रथमा भवति ष्टर्गस्य लोकस्य सन्तत्यै वै समादेति न उपनवति यः सातिषुबाणो भवति एतानि कर्वे सामानि यत्पृष्ठानि यत्पृष्ठानि भवन्ति तैरेव समान्यैति यानि देव राजा नागुंसामानि तैरमस्मिन् लोकार्त्नोति यानि मनुष्य राजा नागुंसामानि तैरस्मिन् लोकार्त्नोति भयोरेव लोकयोरत्नोति देवलोके च मनुष्यलोके च एकविघुंसोऽषेचनीयस्योत्तमो भवति एकविघुंशेयस्य प्रथमः सप्तदश दशमेयः विड्मा एकविघुंशः सप्तदशः तस्मात् नरस्तुर्गम् इममेव तेन लोकम् प्रत्यवरोहति अथ अस्मिन्नेव लोके प्रतिष्ठत् जनन्माराय यद्रुक्मवन्तीर्यस्यानिघादाय शतमानो भवति सदक्षदः सदा विषस्य आयिष्यैवेन्द्रिये प्रतिष्ठति आयिरण्यम् आयुष्य एव अभ्यदिक्षरन्ति ते जोवै हरण्यम् तेजस्य एवन्ति तद्यो वै ह्यम् एवेनक्षरन्ति अप्रतिष्ठितो वा एषो अथ प्रतिष्ठा अथ संवत्सरमाप्नोति यावन्त्यसंवत्सरस्याः रात्राणि त्रयो प्रतिष्ठति पौर्णमास्याम् पौर्वमः भवति नैवार्थमासयोः प्रतिष्ठति अमावास्यायाम् पौर्वमः भवति उत्कृष्टोत्तरम् क्षे पुण्याहे स्याः कार्यम् प्रतिष्ठित्य मुन्तर्यन्ति कुर्वन्तीति यदा वा एषा हीनस्याम् तथैव जगती कृता अथ पशव्यः यश्चर्वा एषद्विरात्रः य एवम् विद्वाङ्गरात्रेण यजते येवात्मा उच्छति अथोद एवापहते अग्निष्टामम् तव आहरति अग्निश्च देवता इति प्रथमाष्टके अष्टमप्रश्नः समाप्तः प्रथमाष्टकश्च समाप्तः